श्रीमद्भागवत् महापुराणं दशं स्कन्ध अथ चतुर्विंशोऽध्यायः इन्द्रियग्निवारणं श्रीशुकुवाच भगवानपि तत्रैव बलदेवेन संयुतः अपश्यन्निवसन् गोपान् इन्द्रियागकृतोऽद्यमान् तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः प्रश्रयावनतोऽपृच्छन् वृद्धा नन्दपुरोगमान् कथ्यतां मेऽपितकोऽयं शम्भ्रमो वामुपागतः किं फलं कस्य चोद्देशकेन वा साधते मख एतद्रोहि महान् कामो मह्यं शुश्रूषवेपितः न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह अश्वस्वं परदृष्टीणाम् अमित्रोदातद्विषां उल्लासीनोरिवन्वर्ज्य आत्मवत् श्रुदुध्यते ज्ञात्वा ज्ञात्वा च कर्माणि जनोऽयम् अनुतिष्ठते विदुष कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् तत्र तावत् क्रियायोगो भवतां किं विचारितः अथवा लौकिकस्तन्मे पृक्षत साधुभञ्जन् भण्यतां नन्दुवाच पर्जन्यो भगवानिन्द्रो मेघा तस्यात्ममूर्तयः तेभिवर्सन्ति भूतानां प्रीणनं जीवनं पयः तं तात वयमन्ये च वार्मुचां प्रतिमीश्वरं द्रव्यैस्तद्रेतसा सिद्धै यजन्ते कृतुभिर्नराः तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे पुंसां पुरस्काराणां पर्जन्यफलभावन पर यं विसृजेद्धर्मं पारम्पर्यागतं नरः कामाल्लोभाद्भयाद्वेषा स वैनाप्नोति शोभनं शेषुकुवाच वचो निशम्यनन्दस्य तथान्येषां रजौ कशाम् इन्द्राय मन्युं जनयन् पितरं प्राह केशवः श्रीभगवानुवाच कर्मणा जायते जन्तुः कर्मणैव विलीयते सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणां कर्तारं भजते सोऽपि नाय कर्तुः प्रबुरित किमिन्द्रियेणैहभूतानां स्वश्वकर्मानुवर्तिनाम् अनीशेणान्यथा कर्तुं स्वभावविहितं नृणां स्वभावतन्त्रो हि न स्वभावम् अनुवर्तते स्वभावस्थमिदं सर्वं सदेवासुरमानुषं देहानुचावचाचां जन्तुः प्राप्यो सृजति कर्मणाम् शत्रुर्मित्र उदासीनः कर्मैव गुरेश्वरः तस्मात् सम्पूजयेत्कर्म स्वभावस्य स्वकर्मकृ अञ्जसायेन वर्तेत तदेवास्य हि दैवतम् आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति न तस्माद्विन्दते क्षेमं जारं नार्यसति यथा वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः वश्यस्तु वार्तया जीवे छिद्रस्तु रिजसेवयाम् कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते वार्ता चतुर्विधा तत्र वयम् गोवृत्तयोनिशम् सत्त्वम् रजस्तम् इति मिथ्यत्युत्पत्यन्त हेतपः रसोत्पद्यते विश्वम् अन्योन्नं विविधं जगत् रसा चोदिता मेघा वर्षन्त्यं बोनि सर्वतः प्रजास्त्वैरेव सिद्ध्यन्ति महेन्द्रः किं करिष्यति न पुरो जनपदा न ग्रामान् गृहाभयं नित्यं मनौकसस्तात् वनशैलनिवासिनः तस्माद्गवां ब्राह्मणानाम् अद्रेश्चारभ्यताम्बक य इन्द्रया गङ्गभारा तैर्यं साध्यताम्बक पच्यतां विविधा पाकासुपान्तापाय सादयः तय्यावापूं पूप संस्कुल्य पूयन्ताम् अग्नय सम्यग् ब्राह्मणैः ब्रह्मवादिभिः अन्नं बहुविधं तेभ्यो देयं बोधेऽनुदक्षिणाः दे अन्येभ्यश्चाश्वचाण्डालपतीतेभ्यो यथार्हतः यवसं च गवां दत्त्वा गिये दीयतां बलिः स्वलङ्कृता भुक्तवन्त स्वनुलिप्ता सुवासस प्रदक्षिणं च कुरुतं गोविप्राणलपर्वतान् एतन्मं मतं तात क्रियतां यदि रोचते ययं गोब्राह्मणादिन्द्राणं द्रीणां मह्यं च जयितो मख श्रीशुकुवाच कालात्मना भगवता सकृदर्पं जिघांसतां प्रोक्तं निशम्यनन्दाद्यासाध्व गृह्णन्त तद्वचः तथा च व्यजतु सर्वं यथाह मदसूदनः वाचित्वा स्वस्तेनं तद्द्रव्येण गिरिद्विजान् उपहृत्य बलिन् सर्वान् आदितायाव सङ्गमां गोधनानि पुरस्कृत्य गिरिं चक्रो प्रदक्षिणम् ते चारु्य सुलङ्कृताः गोप्यश्च कृष्णवीर्याणी गायञ्च सद्विदाशिष कृष्णत्वन्यतमं रूपं गोपविश्रम्भरं गतः शैलोऽसि स्मेति ब्रुवन् भूरि बलिमादद्भिहद्वपुः तस्मै नमो व्रजनैः सहचक्रे त्मनात्मने अहो पश्यत् शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् एषो भजानतो मर्त्यान् वनौकश हन्ति शस्मै नमः श्यामः आत्मनो गवाम् इत्यादी इत्यद्री गो द्विजमुखं वासुदेव प्रणोदिताः यथाभिधाय ते गोपा स कृष्णा व्रजं ययुः इति श्रीमद्भागवते महापुराणे परहिंसां शयितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः